शाङ्काउचुः न त्वम् मिथ्योपचारेण मोक्षयेथा भयाधिनः समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत् न चोपकृतमस्माभिर्न चास्मान्मेद्धये पीड्यमाना बिभर्ष्यस्मान् का सती तरुणी दर्शनीयासि समर्था भर्तुरेषणे अनुगच्छपतिं मातः पुत्रानाप्स्यसि शोभनान् वयमग्निं समाविश्य लोकानप्स्याम शोभनान् अथस्मान्न दहेदग्निरायास्त्वं पुनरेव नः वैशम्पाय न उवाच एव भुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे जगाम त्वरितादेशं क्षेममग्नेरनामयम् ततस्तीक्ष्णार्चिरभ्यागात् त्वरितो हव्यवाहनः यत्र शार्ङ्गा मन्दपालस्य पुत्रकाः ततस्तं ज्वलितं दृष्ट्वा ज्वलनं ते विहङ्गमाः जरितारिस्ततो वाक्यं श्रावयामास पावकम् इति श्रीमहाभारते आदिपर्वणि मयदर्शनपर्वणि शार्गकोपाख्याने